ॐ परमाहात्मने नमः श्रीजगदम्बिकायै नमः अथ श्रीमदेवी भगवते महापुराणे सप्तमस्कन्धे चतुर्विंशोऽध्यायः शौनक उवाच तदा किं मकरोद राजा चाण्डालस्य गृहे गतः तद्ब्रूहि सूतवर्यं पृच्छतः सत्वरं हि च विश्वामित्रे गते विप्रे स्वपचो हृष्टमानसः विश्वामित्राय तत् द्रव्यम् दत्त्वा बद्ध्वा नरेश्वरम् असत्यो यशेत्युक्त्वा दण्डे न ताडयत्तद दण्डप्रहार सम्भ्रमम् अतीव व्याकुलेन्द्रियम् इति च निगडे स्थापयित्वा तं स्वयं श्रुत्वा पविजृहे निगडे स्थे ततो राजा वंशश्चाण्डालपक्कणे अन्नपाने परित्यज्य सदा भवे तदशोचयत् सर्वे दीनमुखे दृष्ट्वा बालं दीनमुखं पुरः मांसनं च सुखाभिष्टा मोक्षयिष्यति नौ उक्पातवित्तोभिप्राय दत्त्वा वित्तं प्रतिश्रुतं रोदमानं सुतं वीक्ष मां च सम्बोधयिष्यते तात पाशं व्रजामीति रुदन्तं बालकम् पुनः तात तातेति भाषन्तं तथा ता सम्बोधयिष्यते तात पाशं व्रजामीति रुदन्तं बालकम् पुनः तत ता, तातता ता, भाषन्तं तथा ता, ता, सम्बोधयिष्यति न सा मां मृगशाक्षी राजनाशे श्रुत्यागो बाल्या तदयविक्रयहे ततश्चाण्डालता चेयम् अ दुःख परम्परा एवं स निवसन् दैतां श्रुतम् निनाय दिवसान् राजा चतुरोदि पीडितः अथ पञ्चभेतेन निगृहान् मोचितो नृपः चाण्डालेनानुशिष्टश्च मृतश्चैलापहरणे कृद्धेन पुरुषैवाक्ये निभस्य च पुनः पुनः काशाच्च दक्षिणे भागे स्मशानं विद्यते महते तद्रक्ष्य स्व यथा न्यायं न त्याज्यं तत्त्वया कृत इमं च जज रं दण्डम् गृहीत्वा याहिमाचरम् वीरबाहोरयम् दण्ड इति घोषस्व सर्वतः श्रुत्वाच कस्मिंश्चिदकाले तु मुदचैलापहारकः हरिश्चन्द्रो भवद्राजा स्मशान्वे तद्वशानुग्रहे चाण्डालेनानुचेष्टस्तु मुत शैलापहरिणा राजा तेन समादिष्टो जगाम शिवमन्दिरम् पुर्यास्तु दक्षिणे विद्यमानं भयानकं। शिवमाल्य समाकीर्णम् दुर्गन्धम् बहुधूमकम् स्मशानं घोरसन्नादम् शिवा शत समाकुलम् वृद्ध गोमायुसङ्कीर्णम् स्ववृन्द परिवारितम् अस्ति संघातसङ्कीर्णम् महादुर्गन्धसङ्कुलम् अध दग्धवास्यानि विकसदन्तपङ्क्तिभिः हसन्ति वाग्निमध्यस्थ कायस्यैवं व्यवस्थिति ृत सुदुनाद्रम् मा कुल हलाकुलम् अपत्रमित्र बन्धो दा सर्वियाद्यमे भागिरे ये हा मातुल पितामहे मातामह पिता पुत्र क्व गतो हि बान्धवे इति शब्दै समाकीर्णम् भैरवै सर्वदेहिणाम् जगन्मांस वसा मेधुमिति ध्वनि अङ्गुलम् अग्नेश्च पठा शब्दो भैरवो यत्र दायते कल्पान्तसदृशाकारम् तत् सुदारुणम् स राजा तत्र सम्प्राप्तो दुःखात् हा भृत्या मन्त्रिणो यूयं क्व कुलोचितं, क्वलोचितम् हा प्रिये पुत्रमे बालय मां त्यक्त्वा मन्दभाग्यकम् ब्रह्मणस्य च कोपेन गता यूयं क्व दूरतः विना धर्मम् मनुषाणां दायते न शुभं क्वचित् यत्नसो धारयेत् तस्मात् पुरुषो धर्ममेव इत्येवं चिन्तयन् तत्र चाण्डालोक्तम् पुनः पुनः मलेन दिग्ध सर्वाङ्गः शवानाम् दर्शने व्रजन् लकुटायकार कल्पश्च दामश्चापि ततस्ततः अस्मिन् चैव इदं मौल्यम् शतं प्राप्स्यामि जाग्रतः इदम् माम इदम् राज्य इदं, इदं, इदं चाण्डालकश्च गवस्तां चिंतन राजा व्यवस्था दुस्तरा जीर्णकपच सुग्रंथींठ चिताजो मुखबा दराघ्रिक मे दुसा लिप्त पाण्डुस्व नाशवन शुन्निव निवृत्तिपरायणे तदीय माल्य संश्लेष न रात्रो न दिवसे ते आहे ते प्रवदन्धुः एवं द्वादश मासातु नेतावशतोपमः इति देवी भागवते महापुराणे चादृशदासहितायां सप्तमस्कन्धे हरिश्चन्द्रा चिन्तावर्णनम् नाम चतुर्विंशोऽध्याये श्रीजगदम्बिकायार्पणमस्तु